श्रीहरये नमः श्रीमद्भागवतं पञ्चमस्कन्दः अथ प्रथमोऽध्यायः राजोवाच प्रियव्रतो भागवत आत्मा रामकथं मुनेन् गृहे रमतयन्मूलकर्मभन्त पराभवः न नूनं मुक्तसङ्गानां दातृशानां द्विजर्षभा गृहेषु अभिनिवेशोऽयं पुंसां भवितुमर्हति महतां कलुविप्रर्षे विप्रर्षे उत्तमश्लोकपाधयोः छायानिर्वृतचित्तानां न संसयोऽयं महान् ब्रह्मन् धारागारसुधादिषु सक्तस्य यत्सिद्धिरभूत् कृष्णेश्च मतिरच्युता श्रीशुकौवाच भाडमुत्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरसम् आवेशिदचेदसो भागवतपरमहंसदयित गतां किञ्चित्तन्तराय विगतां स्वां शिवतमां पदवीं न प्रायेण यर्हि भावह राजपुत्र राजपुत्रप्रियव्रत परमभागवतो नारदस्य चरणोपसेवया अञ्च सावगत परमार्थसत्त्वो ब्रह्मसत्त्वेण दीक्षिष्यमाण अवनिलपरिपालनाय आम्नात् प्रवरगुणगणैकान्तभाजनतया स्वपित्रावुपामन्त्रितो भगवती वासुदेव एव अव्यवधान समाधियोगेन समावेशित सकलकारक क्रियाकलापो तद प्रत्याम्नातव्यं ददति कर्ण आत्मनोन्यस्मादसोऽपि पराभवमन्वीक्षमाणः अतः भगवानादिदेवये तस्य गुणविसर्गस्य परिब्रह्मणा ध्यानव्यवसित सकलजगदभिप्राय आत्मयोनीय किल निगमनि जगण परिवेष्टितस्वभवनात् अवततार स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिः अनुपतममरपरिवृढैव अभिपूज्यमानः पतिपति च सिद्धगन्धर्वसाध्यचारणमुनिगणैर् उभगीयमानो गन्तमादन द्रोणीमवभासयन् उपससर्प तत्र ह वायेन देवर्षि हंसयानेन पितरो भगवन्तं हिरण्यगर्भम् उपलभमान सह सैवोत्थाय अर्हणेन सह पिता पुत्राभ्याम् अवहिता चलि उपतस्ते भगवानपि भारत तदुपनीतार्हण सोक्तवागेन अतितरामुदित गुणगणावधारसुजयः प्रियव्रतम् आदिपुरुषस्तं सतयः सावलोक इति कोवाच श्रीभगभानुवाच निबोधतादेधं रुतं ब्रवीमि मा सूयितुं देवमर्हस्य प्रमेयं वयं भवस्ते तत वहाम सर्वे विवसायस्य धिष्ठं न तस्य विद्यया वा न योगवीर्येण मनीषया वा नैवार्थधर्मे परतश्वेतो वा कृतं विहन्तुं तनुभृत् विभूयात् भवाय नाशाय यचदेकयोगम् अव्यक्तदिष्टं जनधा दधत्ते यद्वाचि तन्त्यां गुणकर्मधामपि हेन् सुदुस्तरैवत्स वयं सुयोजिताः सर्वे वहामो बलिमीश्वराय प्रोतानसि वद्विपते चतुष्पथः ईशाभिसृष्टम् ह्यवरुन् महेङ्घ दुःखम् सुखम् वा गुणकर्म सङ्घात् आस्ताय इव नियमानाः मुक्तोऽपि तावद् विप्रुयात् स्वदेहम् आरब्धमस्नन्नभिमानशून्यः यथानुभूतं प्रतियातनित्र किं त्वं यदेहाय गुणान्न वृङ्क्ते भयं प्रमत्तस्य वनेष्वपि यतः आस्ते सः षट्सपत्नः जितेन्द्रियस्यामरतिर्बुधस्बुधस्य गृहाश्रम किं नु करोत्यवध्यम् यषट्सपन्नान् विजिगीषमाणो गृहेषु निर्विस्य यते त अत्येदि दुर्गाश्रुतवूर्जित हरीन् क्षीणेषु कामं विचरेत् विपश्चेत् त्वं त्वब्जनाभाङ्ग्रिसरोजकोश दुर्गाश्रुतो निर्जितषट्सपत्नः भुङ्क्ष्वेकभोगान् पुरुषातिदिष्टान् विमुक्तशङ्खः प्रकृतिं भजस्व श्रीशुक उवाच इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोः अनुशासनमात्मनो लघुदया अवनतश्चिरोदरो भाटमिति स बहुमानम् उवाह भगवानपि मनुनाय तावत् उपकल्पितापशितिः प्रियव्रत नारदयोः अविषमम् अविषमीशमाणयो आत्मसमवस्थानम् अवाङ् अव्यकृतं अव्यहृतं प्रवर्तयन् अगमत् मनुरपि परेणैवं प्रतिसन्तिथ मनोरथः सुरर्षिवरानुमतेन आत्मजम् तया आस्तव्य स्वयमति विषमविषय विष विशा जलाशया साया, साया उपरराम इतिह वावसः जगतिपति ईश्वरेच्छया अधिनिवेशित कर्मादिकारो किल जगत जगद्भ त्वं परानुभावस्य भगवतः आदिपुरुषस्य अङ्ग्रियुगळ अनवरत ध्यान अनुभावेन परिरन्दित कषायाशय वधाधोऽपि मानवर्तनो महता महीतलम् ननुससास बर्हिष्मतिं नाम तस्यामुह भाव आत्मजानात्मा समानशीलो गुणकर्मरूपवीर्योदरान्धसं भावायां बभूव कन्यां च यवीयसेवोर्जस्वतिं नाम आग्नेद्र इद् मजिह्वयज्ञभागो महावीरहिरण्य रेतो घृतपृष्टसवनमेधादिति विधिहोत्र कवय इति सर्वये वाग्निनामानः एतासां कविर्महावीरस्वनत्रय आसन्वोर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचया पारमहंस्यमेवाश्रमम् अभजन् तस्मिन्नोह्वुपसमलीला परमर्षय सकलजीवनिकाया वासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्छरणारविन्द अवितरस्मरणाविगलित परमभक्तियोगानुभावेन परिभावित अन्तर्हृदयादिगते भगवती ये सर्वेषां आत्मभूते प्रत्यगात्मन्येव आत्मनस् धाधात्म्यम् अविशेषेण समीयुः अन्यस्यामपि जायायां त्रय पुत्रा आसन् उत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः एवम् उपसमायनेषु स्वधनयेषु अथ जगदीभेर्जगतीम् अर्बुदान्ये सपरिवत्सराणां। अव्याहताखिलपुरुषकार सारसम्भृतधोर्दण्डयुकला पीडितमौर्वी गुणस्तनितविरमितधर्मप्रतिपशो बर्हिष्मद्याश्च अनुदिनं येदमानप्रमोद प्रमुषि सवलोकुचिर क्षेल्यादि परूयान विवेक इव अनावबु्यम इव महामना बुभुजे अवभासयति सुरगिरिम् अनोपरिक्रामन् भगवन् आदिद्यो वसुधातलम् अर्धेनैव प्रपत्यर्धेन अवच्छादयति तथा हि भगवतुपासन उपचिताति पुरुष प्रभावस्तत्तन समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणे अनुपर्यग्रामद्वितीय इव पदङ्गः यो वावुहतद्धृतशरणनेमिकृत परिकादास्ते सप्त सिन्धवान् आसन्यत एव कृता सप्त भुवो द्वीपाः जम्पोप्लक्षसाल्मलीकुसौक्रौञ्च सागपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात् पूर्वस्मादुत्तर उत्तरो यतासङ्ख्यम् विगुणमानेन बहिः समन्तत उपक्लृप्ताः क्षारोतयिषुरसोत सुरोद क्रुधोत क्षीरोद दधिमण्ढोध शुद्धोदा सप्त जलधय सप्तद्वीप परि गायिवाप्यन्तरद्विपीवसामना एकैकस्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् परितः उपकल्पितास्तेषु जम्प्दिषु बर्हिष्मतीपती अनौव्रतान् आत्मजानाग्निद्रयिद्मजिह्भागोहिरण्यरेतो घृतपृष्टमेदातिथिभीतिहोत्र संज्ञान्यतासङ्ख्येनैकैकस्मिन् एकमेव अधिपतिं विधते दुहितरं नामो नामोऽसनसे प्रायच्छत्यस्यामासीत् देवयानी नाम नैवं वितपुरुषकाररुक्रमस्य पुंसां तदङ्ग्रिरजसाजितषड्गुणानां चित्रं विधूरविगतः सक्रुधादधीत् यन्नामधेयं मधुना स जहातिबन्धं स एवम् अपरिमितभलपराक्रम ये दधातु देवर्षि शरणानुशयनानुपतित गुणविसर्गं सर्गेणानिर्वृतमिव आत्मानं मन्यमान आत्मनिर्भेद इदमाह अहो अजात्मनुष्ठितुम् यदपि निवेशितोऽहं इन्द्रियैः अविद्या रचितविषमविषयान्धकूपे तदलं मलमुष्याभनितायां विनोदमृगमान् दिग्धिगिति गर्हयाञ्चकार परदेवता प्रसादात् अधिगत आत्मप्र त्यवमर्सेन अनुप्रवृत्तेभ्य पुत्रेभ्य इमां यदायं विभज्य भुक्तभोगां च महिषीं मृतकमिव निहितनिर्वेतो हृदि विहारानुभावो भगवतो नारदस्य पदवीम् पुनरेवम् अनुससार तस्य वा एते श्लोका प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरं योनिमि निर्मरैकरोश्चायां घ्नन् कृतं येन सरिद् सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागसख भौमं दिव्यं मानुषं च महित्वं कर्मयोगजं यश्चक्रे निरयौभं यं पुरुषानुजनप्रियः इति श्रीमद्भगवते महापुराणे पञ्चमस्कन्ते प्रियव्रतविजये प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराज की जय